श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायाम् दशमोऽध्यायः ब्रह्मविष्णुभ्याम् पञ्चकृत्यम् ओङ्कारमन्त्रम् चोपदिश्य शिवस्यान्तर्धानम् ब्रह्मविष्णो चतुः सर्गादिपञ्चकृत्यस्य लक्षणम् रोहि न प्रभो शिव मत्कृत्य बोधनं गुह्यम् कृपया प्रब्रवीमि वा सृष्टिस्थिति च संहार हिरोभावोऽप्यनुग्रह पञ्चैव मे जगत्कृत्यम् नित्यसिद्धं मयाच्युतौ सर्गसंसार संरम्भ तत्प्रतिष्ठा तस्य हिरोभाव तदुत्क्रमः तन्मोक्षोऽनुगृहसन् सन्मे कृत्यम् एवं हि पञ्चकम् कृत्यं मे तद्भ्यन्य तूष्णीम् गोपुरबिम्बवत् स्वर्गादि यच्छुतः कृत्यम् संसारे परिजृम्भणम् पञ्चमम् मुक्तिहेतुर्वै नित्यं मे सूच्य सुस्थिरम् तदिदम् पञ्चभूतेषु दृश्यते माम कजनै सृष्टिर्भौमस्ति सूये संहारे पावके तथा तिरोभावो नेतद्वत् अनुग्रह इहाम्बरे सृज्यते धरय सर्वम् अद्भि सर्वं प्रवर्धते अर्जते तेजसा सर्वम् वायुना चापनीयते व्योम्नानुगृह्यते सर्वं ज्ञेयम् एवं हि सूरिभिः पञ्चकृत्यम् इदम् वोढुम् ममास्ति मुखपञ्चकम् चतुरिक्षु चतुर्वक्त्रम् तन्मध्ये पञ्चमम् मुखम् युवाभ्याम् तपसा लब्धम् एतत् कृत्य द्वयम् श्रुतौ तुष्टि स्थित्यभिधम् भाग्यम् मत्त प्रीतादति प्रियम् तथा रुद्र महेशाभ्याम् परम् अनुग्रहाख्यम् केनापि लब्धुम् नैव हि शक्यते तत्सर्वम् पौर्विकम् कर्म युवाभ्याम् काल विस्मृतम् न विस्मृतम् कर्म तादृशम् रूपे वेषे च कृत्ये च वाहने चासने तथा आयुधादु च मत्साम्यम् अस्माभिः मध्याह्नविरहद्वस वत्सो मौढ्यम् वामेवमागतम् मध्याने सति मैवम् मानम् रूपम् महेश वेत् तस्मान् मज्ञान सिद्ध्यर्थम् मन्त्रम् ओङ्कार नामकम् इतः परम् प्रजपतम् मामकम् मानभञ्जनम् उपादिशम् निजम् मन्त्रम् ओङ्कारम् गुरुमङ्गलम् ओङ्कारो मन्मुखात् यज्ञे प्रथमम् अत्र बोधकः वाचकोऽयम् अहं वाच्यो मन्त्रोऽयं हि मदात्मकः तदनुस्मरणं नित्यम् ममानुस्मरणं भवेत् अकारे उत्तरात् पूर्वम् उकारे पश्चिमाननात् मकारो दक्षिणमुखात् बिन्दुप्राङ्मुखतस्तथा नादो मध्यमुखादेवं पञ्चधासो विजृम्भित एकीभूतः पुनः सर्वम् इत्येकाक्षरो भवेत् नामरूपात्मकं सर्वं वेदभूत कुलद्वयम् व्याप्तमेतेन मन्त्रेण शिवशक्तो बोधकः अस्मात् पञ्चाक्षरं जद्ये बोधकं सकलस्य नकारादिक्रमेणैव नकारादि यथा क्रमम् अस्मात् पञ्चाक्षराता मातृका पञ्च भेदतः तस्माच्चिव चतुर्वक्त्रात् श्रीपाद् गायत्रीदेव हि वेद सर्वसो जन्ये ततो वै मन्त्रकोटयः तत्तन्मन्त्रेण दत्सिद्धि सर्वसिद्धि रितो भवेत् अनेन मन्त्रकन्देन भोगो मोक्ष च सिध्यति सकला मन्त्रराजान साक्षात् भोग प्रदाशुभ नन्दिकेकर उवाच पुनस्तयो तत्र तीर पठं गुरु प्रकल्प्य मन्त्रं च समादिशत् परं निधाय तत् शीर्षिकराम्बुजं शनैः उदन्मुखं संस्थितयो श्रीरुच्चार्या ग्रीन् मन्त्रम् यन्त्रे तन्त्रोक्तिपूर्वकम् शिष्यौ च तौ दक्षिणायाम् आत्मानम् च समर्पयेत् प्रबुद्ध किल तौ ता तदन्तिके तमोचतु देववनम् जगद्गुरुम् नमो निष्कलरूपाय नमो निष्कल नमसकलनाथाय नमस्ते सकलात्मने नमः प्रणववाच्याय नमः प्रणवलिङ्गिने नमः सृष्ट्यादिकस्वेत् नमः पञ्च मुखाय च पञ्च ब्रह्मस्वरूपाय ते नमः आत्मने ब्रह्मणे तुभ्यम् अनन्ते गुणशक्तये सकलायकलरूपाय शम्भवे गुरवे नमः इति स्तोत्वा गुरुम् पद्ये ब्रह्मा विष्णु च नेमतु ईश्वर उवाच वत्सको सर्वतस्त च कथितं दर्शितं च वां जपन्तं प्रणवम् मन्त्रम् दिव्यम् इष्टं वदात्मकम् ज्ञानं च सुस्थिरम् भाग्यम् सर्वम् भवति शाश्वतम् आद्रायां चतुर्दश्यम् तज्जाप्यं दक्षयम् भवेत् सूर्यगत्यां आद्रायाम् एकम् कोटिगुणम् भवेत् मृगशीर्षान्तिमो भागुनर्वस्वादिमस्तदः आर्द्रासमस्तदा नेय पूजा होमादि तर्पणे दर्शनं च प्रभावे च प्रातः सङ्गमकालयोः चतुर्दशी तथा ग्राह्य निशीथव्यापिनी भवेत् परदोष व्यापिनी चैव परयुक्ता पर प्रशस्यते लिङ्ग वेरं च मे तुल्यम् यजताम् परं पूज्यम् वेरादपि मुमुक्षुभि लिङ्गमङ्कारमन्त्रेण वेदम् पञ्चाक्षरेण तु स्वयमेव हि सद्रव्यै प्रतिष्ठाप्यम् परैरपि कूषयेदुपचारै च मत्पदम् सुलभम् भवेत् इति शास्य तथा शिष्यो तत्रैवान्तरहितः शिव इति श्री शिवमापुराणे पदमायाम् विद्येश्वरसंहितायाम् नाम दशमाध्याय श्री गौरीशंकरापणमस्तू